अथ प्राधानिकम् रहस्यम् ओ अतिर्श्रीसप्तशतीरहस्यत्रयस्य नारायणऋषिः अनुष्टोच्छन्दः महाकाली महालक्ष्मी महासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थम् जपे विनियोगः राजोवाच भगवन्नवता रामे चण्डिकायास्त्वयोदिताः एतेषाम् प्रकृतिम् ब्रह्मण् प्रधानम् वक्तुमर्हसि आराध्यम् यन्मया देव्याः स्वरूपम् येन च द्विज विधिना ब्रूहि सकलम् यथावत्प्रणतस्य मे ऋषिर्वाच इदम् रहस्यम् परममनाख्येयम् प्रचक्षते भक्तोऽसीति न मे किञ्चित्तवाच्यम् न राधिप सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी लक्ष्यालक्ष्यस्वरूपासा व्याप्यकृत्नम् व्यवस्थिता मातुलिङ्गम् गदाम् खेटम् पानपात्रम् च बिभ्रती नागम् लिङ्गम् च योनिम् च बिभ्रती नृपमूर्धनी तप्तकाञ्चन वर्णाभातप्तकाञ्चन भूषणा शून्यम् तथ किलम् स्वेन पूरयामास तेजसा शून्यम् तद किलम् लोकम् विलोक्य परमेश्वरी बभारपरमम् रूपम् तमसा केवलेन हि सा भिन्नाञ्जनसङ्का च तवङ्कितवरानना विशालोचना नारी बभूवतनुमध्यमा खड्गपात्रशिरःखेतैरलङ्कृतचतुर्भुजा कबन्धहारम् शिरसा बिभ्राणा हि शिरःस्रजम् सा प्रोवाच महालक्ष्मीम् तामसी प्रमदोत्तमा नामकर्म च मे नमो नमः ताम् प्रोवाच महालक्ष्मीस्तामसीम् प्रमदोत्तमाम् ददामि तव नामानि यानि कर्माणि तानि महामाया महाकाली महामारी क्षुधादृशा निद्रा तृष्णा चैकबीरा कालरात्रिर्दुरत्यया इमानि तव नामानि प्रतिपाद्यानि कर्मभिः एभिः कर्माणि ज्ञात्वा योधीते सोष्णुते सुखम् तामित्युक्त्वा महालक्ष्मी स्वरूपमपरम् नृप सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभम् दधौ अक्षमालाङ्कुशधरा वीणा पुस्तकधारिणी सा बभूपवरा नारी नामान्यस्यै च सा ददौ महाविद्यामहावाणी भारती वाक्सरस्वती आर्या ब्राह्मीकामधेनुर्वेदगर्भा चधीश्वरी अथोवाच महालक्ष्मीर्महाकालीम् सरस्वती युवाम् जनयताम् देव्यौ मिथुने इत्युक्त्वा महालक्ष्मी महालक्ष्मीः ससज्जमिथुनम् स्वयम् हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ब्राह्मण्विधेऽभिरिञ्चेति धातरित्याह तम् नरम् श्रीःपद्मे कमले लक्ष्मीत्याह माता च ताम् स्त्रियम् एतयोरपि रूपाणि नामानि च वदामि नीलकण्ठम् रक्तबाहुम् श्वेताङ्गम् चन्द्रशेखरम् जनयामास पुरुषम् महाकालीसिताम् स्त्रियम् सरुद्रः शङ्करस्थाणुः कवर्ती च त्रिलोचनः त्रयी विद्याकामधेनुः सा स्त्रीभाषाक्षरास्वरा सरस्वती स्त्रियम् गौरीम् कृष्णम् च पुरुषम् नृप जनयामास नामानि तयोरपि विष्णो कृष्णो हृषिः केशो वासुदेवो जनार्दनः पुमा गौरी सती चण्डी सुन्दरी सुभगा शिवा एवम् युवतयः सद्यः पुरुषत्वं प्रपेदिरे चक्षुष्वन्तोऽनुपश्यन्ति नेतरे तद्विदो जनाः ब्रह्मणे प्ररदौ पत्नीम् महालक्ष्मीर्नृपत्रयीम् रुद्राय गौरीम् वरदाम् वासुदेवाय च श्रियम् स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् विभेद भगवान सह बीद्यवान् अण्डमध्ये प्रधानादिकार्यजातमभून्नृप महाभूतात्मकम् सर्वम् जगत्स्थापरजङ्गमम् पुपोषपालयामास तल्लक्ष्म्या सह केशवः सञ्जहार जगत्सर्वम् सह गौर्या महेश्वरः महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्वरी निराकारा च साकारा सैव नानाभिधानभृच नामान्तरैर्निरूप्यैषा नाम्ना नान्येन